तृतीयोऽध्यायः ध्यानम् ॐ बुद्ध्यद्वानुसहस्रकान्तिमरुणक्ष मां शिरोमालिकां रक्तालिप्तपयोधरां जपवटिं विद्यामभीतिं वरम् हस्ताब्जैदतिं त्रिनेत्रविलसद्वक्तारविन्दश्रियं देवीं बद्धहिमां सुरत्नमुकुटां वन्देरविन्दस्थितां त्रीरुशिरूवाच निहन्यमानं तत्सैन्यम् अवलोक्य महाशुरः तेनानीचक्षुरकोपां ययौ योद्धुमथाम्बिकां स देवीं सर्वर्षेण ववर्षशमरेशुरः यथा मेरुगिरेशृहं तोयवर्षेण तोयदः तस्यच्छत्वा ततो देवी लीलयैव सर्वोत्कराम् जघान्तुर्काण्पाणै यन्तारं चैव वाजिनां चिक्षेद च धनुषद्यो धनं त्यातिसमुत्सृतं विव्याथ चैव गात्रेषु छिन्नधन्वा नमाशु वै सच्छिन्नधनवाविरथो हता सोहत सारथिः अभय अभ्यधावत तां देवीं खड्गचर्मधरोसुरः सिंहमाहत्य खड्गेण तीक्ष्णधारेण मूर्धनी आजखानभुजे सव्ये देवी न्यव्यतिवेगवान् तस्या भुजं प्राप्य पफालनिपनन्दनम् ततो जग्राहशूलं स कोपाद्दरुणलोचनः चिक्षेप च ततस्तत्तो भद्रकाल्यां महासुरः जाज्वल्यमानं तेजोभि रविबिम्बमिवाम्बरान् दृष्ट्वा तदा पतच्छूलं देवी शूलममुच्यत तच्छूलं सतधातेन नीतं स च महासुरः हते तस्मिन् महावीर्ये महिषस्य च मोपतौ आजगामगजारूढ चामरस्त्रीदशार्जनः सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिकादृतम् ङ्काराभिहतां भूभौ पातयावासनिष्प्रभां भग्नां शक्तिं निपतिताम् दृष्ट्वा क्रोधसमन्वितः चिक्षेपचामरशूलं बाणैस्तदपि साक्षिणन् ततः सिंहसमुत्पत्य गजकुम्भान्तरे स्थितः बाहुयुद्धेन युधे तेनोच्चैत्रीदसारिणां युध्यमानौ ततस्तौ तु तस्मान्नागान्महिं गतौ युधातिसंरद्धौ प्रहारैरतिदारुणै ततो वेगात्कमुत्पत्त्य निपत्य च करप्रहारेण शिरसन् चामरश्च पृथक् कृतम् उदग्रश्च रणे देव्यां शिलावृक्षादिभिर्हतः दन्तमुष्टितलश्चैव करालश्च निपातितः देवी क्रुद्धा गदापातये चूर्णया वासचोद्धतम् वास्कलं भ्यन्द्रिपालेन बाणौ स्ताम्रं तथान्धकम् उग्रास्यमुग्रवीर्यं च तथैव च महाहनुं त्रिनेत्रा च त्रिशूलेन जघानपरमेश्वरी बिडालस्यासिनाकायान् पातयामास वैषिरः दुर्धरं दुर्मुखं चोभौ स्वरैर्निन्द्येयमक्षयम् एवं संक्षीयमाळेतु स्वसैन्ये बहिषाशुरः माहिषेण स्वरूपेण त्रासया वासतान् गणान् काश्चित्तुण्डप्रहारेण कुरक्षेपैस् तथा परान् ताङ्गुलं ताडितांश्चान्यान् असिङ्गाभ्यां च विदारितान् वेगेन काचिन् परान्नान् परान्नादेन भ्रमणेन च निःश्वासपवने नान्यान् पातयामाशभूतले निपात्य प्रमथानेकम् अभ्यभाव शोशुरः सिंहं हन्तुं महादेव्याः कोपं च क्रीत तुम्बिकां सोऽपि कोपान् महावीर्य सिङ्गाभ्यां पर्वतानुश्चा चिक्षेप च नदट वेगभ्रमणविक्षुण्डां महीतस्य लाङ्गूलीनाफतश्चाब्धि प्लावयामासु सर्वतः धृतशृङ्गविभिन्नाश्च खण्डं खण्डं जयुर्घना श्वासा निलस्ता सतशो निपेतुर्नभसोचलाः इति क्रोधसमाध्मातम् आपतन्तं महासुरम् दृष्ट्वा सा चण्डिकाकोपं तद्वधाय तदा करो सात्वा तस्य वैपाशं तम्बबन्धमहासुरं तत्याजमाशिषं रूपं सोऽपि महामृधे ततः सिंहो भव सद्यो हीनत्तितावत्पुरुष खड्गपाडीरदृश्यत तत एवासु पुरुषं देवी चिच्छेदसायकै तं खड्गचर्मणा सार्धं तत शोभुन्महागजः करेण च महासिंहं तं च कर्ष कर्षतस्तु करं देवी खड्गेन निरकुन्तत ततो महासुरो भूयो माहि संवपुरास्थितः तथैव चोभयामास तैलोक्यं सचराचरं ततः क्रुद्ध्वा जगन्माता चण्डिकापानमुत्तमम् अपौ पुन पुनस्थैव जहासारुणलोचनां न दचासुरसोऽपि बलवीर्यमलोधतः विषाणाभ्यां चतिक्षेपं चण्डिकां प्रतिभूधरां सा च तां प्रहितास्थेन चूर्णयन्ति सर्वोत्करै उवाच तं महोद्धूत मुखरागाकुलाक्षरम् देव्युवाच गर्ज गर्ज मधु यावत् पिवाम्यहं मया त्वयि स्फते त्रैव गर्जिश्चिन्त्या सुदेवता ऋषिरुवाच एवमुक्त्वा समुत्पत्य सारूढा आदेनाक्रम्य कण्ठे च शूले नैदमताडय ततसोऽपि पदाकान्त तया निजमुखान्ततः अर्धनिष्क्रान्त एवासी देव्या वीर्येण संभृतः अर्धनिष्कान्त एवाशौ युध्यमानो महाशुरः तथा महासिना देव्यां ततो निपातितः कृतं सर्वं दैत्यसैन्यं न नाश तत् रहर्षं च परं जग्मो शतला देवतागुणा तुष्टुस्तां सुरादेवीं सह महर्षिभिः जगुर्गन्धर्वपतयो नटितुष्टाक्षरोगणाः ॐ श्रीमार्कुण्डीपुराणे सावर्णके मन्वन्तरे देवी महात्मे महिषासुरवधू नाम ॐ श्रीदुर्गायै नमः चतुर्थो